धृतराष्ट्र उवाच वाक्यम् न मे रोचते यत्त्वयोक्तम् यत्ते प्रियम् तत्क्रियताम् नरेन्द्र पश्चात् तप्स्यसेतदुपाक्रम्य वाक्यम् न हीदृशम्भाविवचो हि धर्म्यम् दृष्टम् ह्येतद्विदुरेणैव सर्वम् विपश्चिता बुद्धिविद्यानुगेन तदेवैतदवशस्याभ्युपैति महद्भयम् क्षत्रियजीवघाति वैशंपायन उवाच एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरम् च शशासोच्चैः पुत्रवाक्ये स्थितो राजा दैव सम्मूढचेताः सहस्रस्तम्भाम् हेमवैधूर्यचित्राम् शतद्वाराम् तोरणस्फाटिकाख्याम् सभामग्र्याम् क्रोशमात्रायताम्मे मे तद्विस्तारामाशु कुर्वन्तु युक्ताः श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा सभायाम् सहस्रशः शिल्पिनश्चैव